श्रीहरये नमः अत त्रयोदशोऽध्यायः ब्राह्मण उवाच दुरत्यये द्वन्वजया निवेशितो रजस्त्वमस्तत्त्वविभक्तकर्मदृक् स एष सार्तो परः परिभ्रमन् भभाटवीं याति न शर्म विन्दति यस्यामि मे शन्नरेव दस्य वः सार्तं विलुम्पन्ते कुनायकम्भलर्त् कोमायवो सैर्म सखैरुभद्रुतः क्वचित्तु गन्तर्वपुरं प्रपश्यति क्वचित् क्वचिच्चा सुरयोल्मुखग्रहं निवासतो यद् द्रविणात्मबुद्धिस्ततस्ततो धावति भो सुधूम्रा दिशो न जानाति रजस्वलाक्षः अदृश्य जिल्लीस्वनकर्णशूल उलूकवाग्भ्यर्व्यतितान्तरात्मा अपुण्यवृषान् श्रयते क्षुधार्धे थो मरीचितो यान्यभिधावति क्वचे, सरितो बियादि परस्परं चालशधे निरन्धः आसाध्य धावं निर्विद्यते क्वचयक्षैर्हृताकृतस्त्वच निर्विणचेताः सोषन् विमुह्यन् त्वपयाति कस्मलं क्वचिच्च गन्धर्वपुरं प्रविष्टः प्रमोदते निर्वृथवन्मुहूर्तं चलन् ुरोक्षोर्विमना इवास्ते पथे पथेभ्यन्तरवग्निनार्दित कौढुम्बिककृदयति वै जनाय क्वचित् निकीर्णो जगराहिना जनो न वैति किञ्चित् विपिने भविद्धः दष्टस्म चेते क्वचदन्तसुखैर् अन्धोऽन्धगूपे पतितस्तमिस्रेम् कर्हि स्म चित् शूद्ररसान् विचिन्वन् तन्मक्षिकाभिर्व्यतितो विमानः तत्रादिकृच्छरात् प्रति लब्धमानो बलात् विलुम् पन्त्यतथं न तोऽन्ये क्वचिच्च सीतातभवात वर्षप्रतिक्रियां कर्तुमनीष आस्ते क्वचिन्मितो विपणं यच्च क्वचित् क्वचित् शिक्षणतस्तु तस्मिन् सय्यासनस्थान विहारहीनः याचन् परातः प्रतिलप्तकाम पारक्यतृष्टिर्लभतेऽवमानम् अन्योन्यभित्तव्यतिशङ्खवृत्थ वैरानुभन्तो विवहन्मितश्च पातोपसर्कैर्विकरन् विपन्नः तां स्तान् विपन्नान् सखि तत्र तत्र विकाय जातं परिगृह्य शार्तः आवर्ततेऽध्यापि न कश्चिदत्र वीराध्वनः पारमुपैति मनस्विनो निर्जिदधिग्गजेन्त्र ममेति सर्वे भुवि बद्धवैरा मृदे सगीरं न तु तद् व्रजन्ति यन्यस्तदण्डो गतवरो भियाति प्रसजति क्वापि लता भुजाश्रयः कदाश्रया व्यक्तपद द्विजस्पृह तैर्वञ्चितोऽहं सकुलं समाविशन् न रोचयन् शीलमुपैति वा नरान् तज्जातिरासेन सुनिर्वृतेन्द्रियः परस्परोद्वीक्षणविस्मृता द्रुमेश्यन् सुधारभने क्वचित् प्रमादात् गिरिकन्धरे भतन् वल्ली गृहीत्वा गजभीत आस्थितः अतः कतश्चित् सविमुक्त आभतः पुनश्चशार्दं प्रविसत्यरिन्दमा अध्वन्यमुष्मिन्नजाया ब्रह्मज्जनोऽध्यापि न भेद असज्जितात्माहरिसेवयासितं रहोगणत्वमिह्यत्वनोऽस्य सन्न्यस्तधण्टकृतपूतमैत्रः असज्जितात्मा राजोवाच अहो किं जन्मभिस्त्वपरैर्प्यमुष्मिन्न यत् हृषी केशयशकृतात्मनां महात्मनां वः प्रशुरः समागमः न्यहद्भुतं त्वच्चरणाब्जरेणुबेर्हतात्मसो भक्तिदोषे जमला मौहूर्तिकात्यस्य समागमा मे दुस्तर्कमूलो बहतो विवेकः नमो महेभ्योऽस्तु नमःषिभ्यो नमो युवभ्यो नम आवडुभ्यः ये ब्राह्मणाघाम् अवधूत लिङ्गाश्चरन्ति देव्य शिवमस्तु राज्ञां श्रीशुक उवाच मातः स वै ब्रह्मर्षिसुतः सिन्धुपतय आत्मसतत्वं विगणयत परानुभावत् परमकारुणीककथयोपदिश्य रघुगणेन सकरुणमभिवन्दितचरण आपूर्णार्णव इव निभृतकरणोर् यासयो धरणीमिमां सौ विचचार सौवीरपतिरपि सुजनसमवगत परमात्मसतत्व आत्मनि अविद्यात्योरोपितां च देहात्ममतिं विसर्ज एवं हि नृप भगवदाश्रित आश्रितानुभावः राजोवाच यो हायिक बहुविता महाभागवत त्वयाभिहितः परोक्षेण वसचा जीवलोकभवाध्वा सह्यार्य मनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोकसमधिगमः अत तदेवैतुरवगमम् समवेतानुकल्पेन निर्दिश्यता मीथी इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्ते त्रयोदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुमहाराज की जय